अथ षट्त्रिंशोऽध्यायः वैशम्पायन उवाच भीमसेनव च श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः निःश्वस्य पुरुषौ व्याघ्रः सम्प्रदध्यौ परन्तपः श्रुता मे च विनिश्चयाः आयत्याम् च तदात्वे च यः पश्यति धर्मस्य जानमानोऽहम् गतिमग्राम् सुदुर्विधाम् कथम् बलात् करिष्यामि मेरोरिव विमर्दनं समुहूर्तमिव ध्यात्वा विनिश्चित्येति कृत्यताम् भीमसेनमिदम् वाक्यमपदान्तरमब्रवीत् युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि भारत इदमन्यत् समादत्स्ववाच्यं मे वाक्यकोविद महापानि कर्माणि आरभ्यन्ते भीमसेन व्यथन्ते तानि भारता भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः सर्व एव कृतास्त्राश्च सततम् चाततायिनः राजानः पार्थिवाश्चैव येष्माभिरुपतापिताः संश्रिताः कौरवम् पक्षम् जातस्नेहाश्च तम् प्रति दुर्योधनहिते युक्ता न तथा स्मासु भारत पूर्णकोशाबलोपेताः प्रयतिष्यन्ति सङ्गरे